श्रीमन श्रीमन्महाभारतम् आदिपर्वणि खाण्डवदाहपर्वणि गाण्डीवादिदाने चतुर्विंशत्यधिकद्विशततमो अध्यायः वैशम्पायन उवाच एवमुक्तः स भगवान् धूमकेतुर्हुताशनः चिन्तयामास वरुणुम् लोकपालं दिदृक्षया आदित्यमुदके देवम् जलेश्वरम् स च तच्चिन्तितम् ज्ञात्वा दर्शयामासपावकम् तमब्रवीद्धूमकेतुः प्रतिगृह्य जलेश्वरम् चतुर्थम् लोकपालानाम् देवदेवम् सनातनम् सोमेन राज्ञा यद्दत्तम् धनुश्चैवेषु धीचते तत्प्रयच्छोभयम् शीघ्रम् रथम् गाण्डीवेन करिष्यति चक्रेण वासुदेवश्च तन्ममाद्य ददानीत्येव वा वरुणः पावकम् प्रत्यभाषत तदद्भुतम् महावीर्यं यशः कीर्तिविवर्धनम्